गरुडपुराणम् आचारकाण्डम् अध्यायम् फोर् रुद्र उवाच सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चैव एतद् ब्रूहिजनार्दना हरिरुवाच शृणुरुद्रप्रवक्ष्यामि सर्गादीन् पापनाशनान् स्वर्गस्थितिप्रलयां तां तां विष्णो क्रीडां पुरातनीं नरनारायणो देवो वासुदेवो निरञ्जनः परमात्मा परं ब्रह्मजगज्जनिन्दनयाधिकृत तदेतत्सर्वमेवै तद्व्यक्ताव्यक्तस्वरूपवद तथा पुरुषरूपेण कालरूपेण च स्थितम् व्यक्रम् विष्णुस्तथा व्यक्रम् पुरुषकाल एव च क्रीडदो बालकस्येव चेष्टास्तस्य निशामया अनादिनिधनो दादा त्वनन्धपुरुषोत्तमः तस्माद्भवति चाव्यक्रम् तस्मादात्माभिजायते तस्माहुद्धिर्मनस्तस्मात्तदः कम् पवनस्ततः तस्मा, तस्मा, तस्मा तेजस्तदस्त्वापस्तदो भूमिस्तदो भवद अन्धो रुद्र तस्यान्दस्वयमेव हि शरीरग्रहणम् पूर्वं सृष्ट्यर्धं गुरुदे प्रभुः ब्रह्म भूत्वा रजो मात्राधिकः सदा शरीर शरीरग्रहणम् कृत्वा सृजदेतचराचरम् अण्डस्यान्दर्जगत्सर्वम् सदेवासुरमानुषम् सृष्टा सृजति चात्मानम् विष्णुपाल्यम् चपाति च अस अपसंह्रियते चान्दे संहर्ता च स्वयम् हरि ब्रह्मा भूत्वा सृजद्विष्णुर्जगत्पादिहरिस्वयम् रुद्ररूपी च कल्पान्ते जगत्संहरदेखिलम् ब्रह्मादुसृष्टिकालेऽस्मिन् जमध्यगदां महीम् दंष्टूयोद्धरधिज्ञात्वा वाराहीमास्तिदस्तनून् देवादिसर्गाद्वक्ष्येकम् सङ्क्षेपाशृणुशङ्कर प्रथमो महदस्सर्गो विरूपो ब्रह्मणस्तु सः तन्मात्राणां द्वितीयस्तु भूतसर्गो हि सस्मृदः वैराकिकस्तृदीयस्तु सर्गस्त्वैन्द्रियकस्मृतः इत्येष प्राकृतसर्गसम्भूदो बुद्धिपूर्वकः मुख्य सर्गश्च दुर्धस्तु मुख्या वैस्तावरा स्मृतः तिर्यक्स्तोत्रास्तु यः प्रोक्तस्तिर्योऽन्यः स उच्यते तदुर्ध्वस्त्रोतसां षष्ठो देव सर्गस्तु सस्मृदः तदोर्वाक्स्त्रोससां सर्गः सप्तमः स तु मानुषः अष्टमोऽनुग्रहसर्गसात्विकस्तामसस्तु सः पञ्चैदे वैकृदा सर्गाः प्राकृतास्तु त्रयस्मृताः प्राकृतो वैकृतश्चापि कौमारो नवमस्मृदः स्थावरान्तास्तुराद्यास्तु प्रजा रुद्रचुर्विधाः ब्रह्मणः कुर्वदसृष्टिं जज्ञिरेमानसा सुदा तदोदेवासुरपिधृन् मानुषांश्च चतुष्टयम् शिश्रुक्षुरम्भास्य दानि स्वमात्मानमपूजयद मुक्ता मनस्तमो मात्रा दुदृक्दास्तत्प्रजापदेः सिसृक् क्षेर्जखनात् पूर्वमसुराजज्ञिरेतदः उत्ससर्जतदस्ताम् तु तमो मात्रात्मिकाम् तनून् तमो मात्रा तनुत्यक्ता शङ्करा भूद्विभावरि यक्षोपक्षांसि तद्देहे प्रीति मा सत्त्वोद्रिक्तास्तु मुखतः सम्भूता ब्रह्मणो हर सत्त्वप्राय तनुस्तेन सन्ध्यक्ता साप्यभूद्दिनम् ततो हि बलिनो रात्रावसुरा देवतादिवान् सत्त्वमात्राम् तनुम् गृह्य पितरश्च ततो भवन् सा चोत्सृष्टा भवत्सन्ध्या दिन क्लान्तरस्थितिः रजो मात्राम् तनुम् गृह्य मनुष्यास्त्वभवंस्ततः सा त्यक्ता चा भवद्योस्त्रा प्राक्सन्ध्यायाभिधीयते ज्योत्स्ना शरीराणि तु वै रजो तनु गृह्यक्षुदभूत्कोप एव च क्षुतृक्षामा मृद्भक्षा राक्षसा रक्षणाय रक्षणाच्ये यक्षाभ्यायक्षणाज्ञेयाः सर्पा वैकेशसर्पणाद जाताकोपेन भूतास्ते गन्धर्वजज्ञिरेतदः पायन्दो जज्ञरेवाचम् गन्धर्वाप्सरसश्च ये स्वर्गम् द्यौर्वक्षसश्चक्रे सुखदो जास् सृष्टवान् सृष्टवानुदराद्राश्च पार्शाभ्याम् च प्रजापतिः पद्भ्याम् चैवान्त्य मादङ्गान्म हि षोष्ट्रा ओषभ्यफलमूलिन्यो रोमभ्यस्तस्य जज्ञेरे गौरजपुरुषो मेभ्यो ह्यश्वाश्वतरगर्दभाः एतान् ग्राम्यान् पशून् औदतापशवषष्ठाः सप्तमाश्च सरीसृपाः पूर्वादिभ्यो मुखेभ्यस्तु ऋग्वेदाद्याः प्रजज्ञिरे आस्वाद्वै ब्राह्मणा जाता बाहुभ्याम् क्षत्रिया स्मृताः ऊरुभ्याम् तु विश्वसृष्टा शूद्रपद्भ्याम् जायत ब्रह्मलोको ब्राह्मणानाम् शाक्रः क्षत्रियजन्मनाम् मारुतम् च विशाम् स्थानम् गान्धर्वम् शूद्रजन्मनाम् ब्रह्मचारिव्रतस्थानम् ब्रह्म लोकप्रजायते प्राजापत्यम् गृहस्थानम् यथाविहितकारिणम् स्थानम् सप्तर्षीणाम् च तथैव वनवासिनम् स्थानम् सप्तर्षीणाम् च तथैव वनवासिनाम् यदी नामक्षयम् स्थानम् यदृच्छागामिनम् सदा यदि श्री महापुराणे आचारकाण्डे सृष्टिवर्णनम् नाम चतुर्थोऽध्यायः Om um.